गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् अण्ड् ट्वेन्टि एय्ट् क उवाच सददर्शसमासीनं नारायणमनामयं रत्नकाञ्चन विभुं सोपितं पुरदो वीक्ष्य विवर्णवदनां तदा तत्पृष्ठदो महादैत्यम् गगनस्पर्धिमस्तकम् उदतिष्ठदवेगेन दयालुकमलापदिः धृत्वाकरं समालिङ्ग्य स्वासने कं न्यवेशयद सम्पूज्य परिपप्रच्छ किं ते कार्यमुपस्थितम् कथं चम्लानवदनश्वासवांश्च हदप्रभः मम खेदसमुत्पन्नो द्रष्ट्वैव त्वां पिधामः इति तद्वचनं श्रुत्वा जगादकमलासनः क उवाच प्रबोधितः शिवेनासं प्रदिसुक्तो निजालये कदो मे दृम्भदो वक्त्रान्निर्गतपुरुषो महान् पदन्दिभूतले भानि यन्मस्तकविधानतः तस्य सौरभगन्धेन सर्वदेवा विसिस्मिरे यस्य लावण्यमीक्ष्यैव लज्जितो मदनोऽभवद यस्य क्रन्दितशब्देन चकम्पे भुवनत्रयं स नमस्कृत्य देव विनीतः पुरदस्तिदः तदस्तस्मै वरा दत्तः पुत्रस्नेहेन माधव यं यं त्वमालिङ्ग्यसि स कालोऽपि नरणे स्थातुं तव शक्रो भविष्यति स्थानं च दत्तं देव मया तदः नमस्कृत्य गदो दूरं वितर्कात् पुनरागतः मामेवालिङ्गितुं यादोपलमस्माद्भयादहम् हंसमारुह्य सहसा वेगेन त्वामुपागतः दृष्ट्वा दृष्ट्वा पृष्ठगदं कम्भश्वासश्च mm -hmm. मे भवद विना त्वां शरणं कं वा यामि सर्वेश्वरेश्वर ततो ब्रवीन्महाविष्णुर्ब्रह्माणं शरणागदं देव उवाच पूर्वं दत्त्वा प्राप्य बुद्धिदः इदानीं चिन्तया किं स्याद्यद्भाव्यं तद्भविष्यति स पीडां त्रिषु लोकेषु भवद क उवाच यावत्तौ चिन्तया विष्ठौ स्थितौ ब्रह्महरी तदा तावत्स पुरतो तिष्ठदृष्ट्वा तदाभ्यां महासुरः जगर्जगर्जयामासत्रैलोक्यं बलवत्तरं ब्रह्माण्डं कम्पयामास ब्रह्माणं च तदा कलः सोऽवद्रक्षरक्षेदि विष्णुं त्रैलोक्यरक्षकम् तदो विष्णुर्जगौ दैत्यं वाचा मधुरया तदा हरिरुवाच नत्वया वरदाने वरदानेन मत्तेन यौद्धुमुत्सहे अहं सत्त्वगुणोपेधपालने निरतः सदा अयं च ब्राह्मणो ब्रह्मा तेन योद्धुं न चार्हसि तव युद्धप्रदो देवख्यादोऽसौ मदनान्दकः तेन युध्य स्वदे कीर्तिर्महदी स्यात् त्रिलोकगा क उवाच इत्याकर्ण्यवचस्तस्य जहृषे दैत्यपुङ्गवः पुड्डीयप्रययौ सद्य कम्पयन्भुवनत्रयम् पातयन् पर्वतान् वृक्षांश्चूर्णयन् सहसा बहून् दिग्गजाश्चलिता सर्वे सं जग्मो विदिशो दिश एवमुपत्यकां यादकैलासस्य महागिरेः ददर्शाधित्यकायां सध्यानस्तं गिरिशं नन्दिभृङ्गिगणाकीर्णं पार्वत्या सेवितं विभुं व्याक्रचर्मपरिधानमर्धचन्द्रविभूषणं भस्माङ्गरागशोभाढ्यं करिचर्मोत्तरीयकं दृष्ट्वादेवं तदा दैत्यो निनिद्रसहसाहरम् अने की किं मै युद्ध कर्तव्य तापस्य नहा। नहाँ सुंदरी भार् नीच्वादृचयां मनसा गौरी मंदगम तदा चकंपे गिरीजाकमील्यनय मूर्छ माशु भयिहला दधारेश पाशे स दैत्यो दुष्टमान सह उडीयचिदेकाचुशोच गिरीजावन नीयमना यीसुदा गिरीजोवाच औदासिन्यं कथं यादो मयि देवोऽखिलार्थवित् ध्यानं कथं गतोऽस्यार्थे हीयमाणे त्वदङ्गके नाकारिदास्यं न्यूनं देयेन काठिन्यमागतः कः सखा मोचयेन्मां हि प्राणदा भवेच्चकः पुनर्मे शङ्करं गोनु दर्शयेद्बलवत्तरः क उवाच तदशोकाकुलं वीक्ष्य तां गणाप्राभ्रुवंस्तदा अनेन योद्धुं शक्तिर्नो त्रैलोक्यनाशिनाधुना शिवश्च ध्यान निष्ठो भूदैव दस्यानुकूलता नीता नो जननि विश्वसृष्टिस्थित्यन्धकारिणी मोहिनी सर्वदेवानां सर्वदुःखविनाशिनी लावण्यलहरी नीता सर्वयोषित्वराशुभा रत्नभूता कथं नीता कथं कधम सा पुनरेष्यदि ध्यानस्ते शङ्करे सर्वनाशने नेत्रवह्नितः तस्मिन्नस्यदि लोभेन पुत्रानिव जनन्यथा एवं शोकं प्रकुर्वत्सु हाहाकारै रुरत्सु च गुणेषु विससर्जासु ध्यानं क्रोधान् महेश्वरः क्रोधानलेन ब्रह्माण्डं दहन्निव दिशो दश पप्रच्छतान् गणान् चम्भुसङ्कटं किमुपस्थितं भस्मसात्तं करिष्यामि येन भक्कधनं कृतं यदि तद्वचनं श्रुत्वा प्रोचुस्थं ते गणास्तदा त्वयिद्ध्यानस्ति दे देव मन्दराचलसन्निभः कृतान्तसमरूपः सन्नागदो दैत्यपुङ्गवः यस्य श्वासा निलहदा गदाः सम्मोहं प्रापिदा दर्शनादेव शङ्कर ततः धृत्वा केशापाशे महाबलः निनाय सत्वरं व्योममार्गेण जननीं हिनः नियमाना शिवाप्राह सर्वे विमूर्च्छिदाः तथाविधां समाधाय समादाय स दुष्टमानसः श्रुत्वा तेषां वचः शम्भुर्जज्ज्वालपरमं मृषा कुर्वन्भस्मेव लोकानामारुरोह वृषं निजं त्रिशूलादीनि शस्त्राणि दधानो दशभिर्भुजैः न भो मार्गेण दिशः यत्रासीत् सिन्धुरो दैत्यस्तं देशमगमत्क्षणाद् अहनत्पृष्ठदेशे तं तस्थौ तदा मुञ्जभार्या महादुष्टह्रष्टः सन् इत्युक्तसरुषा विष्टस्त्रिलोकीं भस्मदां नयन् बाहुभ्यां मारयन्नेव प्रययौ शिवसन्निधौ उवाच च महा गर्वेण परिमोहितः नाखं मशकवाक्येन बिभेमि भुवनाधिपः यस्य यस श्वासानिलेनाशु कम्पदे मेरुपर्वतः तस्य मे गणना नास्ति मुखं मां मा प्रदर्शय यदि शक्तिर्मया सार्धं युद्धं कर्तुं तदा कुरु नो चेदन्यां पाणियतदशौख्यमवाप्स्यसि सह कि माया लखो। यौधव्यम मुक्त्वा यमु बाहुयुद्धम कर्म शंकर मयय दुर्गा दी तो सस्मयूरेशम स्वचेत द्विजप मयूरेशस्तो सूर्य अंतराल प्रादुरासि कॉड़ीसूर्यनिभ क्षण सर्वांगसुंदूषण परशुमत कृवा वरयामस दैत्यपं उच्च स्वक्षण वाचा सिंधूर तम द्विजोत्तम त्रैलोक्यजननीं गौरीं स्थापयाशुममान्तिके युध्यस्वशङ्करेण त्वं यावज्जयपराजयौ जयो, जयो यस्य भवेत्तेन ना ग्राह्येदि नान्यथा वचः क उवाच द्विजवाक्यं समाकर्ण्य सिन्धूरो हृष्टमानसः स्थापयामास गिरिजां युद्धाय बहुलालसः तयोस्तु पश्यतोरेव तावुभावप्ययुध्यतां सिन्धूरश्च महेशश्च नानायुद्धविशारदौ क्रोधसंरक्तनयनौ तुल्यते जःपराक्रमौ बाहुभ्यां वेष्टितुं यावद् येष सोऽसुरोहरम् अदृश्य एवं परशुरस्य जघ्ने बलादुरः क्षीणशक्तिं तदो दैत्यं त्रिशूलेनाहनद्धरः तदोचक्रं द्विजवरो वदति स्महितं त्रैलोक्यनायकेन त्वं नयुद्धं युद्धं कर्तुमर्हसि गिरिजा श्याम् विहाय निजमन्दिरं नो चेदयं शिवो भस्मकरिष्यति तवाधुना यमुक्तो वा द्विजेनासौ वाञ्छां त्यक्त्वा भुवं ययौ ततः पार्वदी पार्वतीप्राहद्विजं प्राप्ते जयं शिवे कोऽसि त्वं मुनिशार्दूलयेनाहं मोचिता खलाद मे दर्शयस्वीयं रूपं नेतं स्वभावजं मम प्राणाधिकोऽस्सि त्वं सखाप्राणप्रदो यदः न भवेदुपकारस्ते प्राणे त्यक्ते द्विजोत्तम एवमाश्रित्य वा तां मुनीश्वरः न च अजयत्सिन्धुरं दैत्यं मोचिता त्वं शिवेनः इत्युक्त्वा पूर्वरूपं स आविश्चक्रे विनायकः दशदोर्दण्डरुचिरं कर्णकुण्डलमण्डितं कस्तूरीतिलकं रत्नमुक्ता मालाविभूषितं नानालङ्काररुचिरं शेषकण्डमणिप्रभं दृष्ट्वैवं परमात्मानम् ननन्त न ननाम पादयोस्तस्य स उद्दाप्य च जगौ विनायक उवाच त्रेधायुगे प्राब्रुवं त्वां दास्यामि दर्शनं पुनः अवतीर्यद्वापरे ते गृहे नाम्ना गजाननः भविष्यामि हनिष्यामि सिन्धूरं दैत्यमोचसा क उवाच मुनिरूपधरो देव उक्त्वा वान्तरधीयत तद शुशोच गिरिजामूर्च्छं स परमां तत ऊचे विश्वनाथो मनस्वस्थं कुरु प्रिये पश्य त्वं देवं विनायकमनामयम् न मिथ्या भाषितं तस्य यदुक्तं तत्करिष्यति एवमुक्त्वा महादेवो वृषारूढस्तया सह आययौ परमं प्रीथः कैलासं श्रीगणेशे विंशतुत्तर शतमोध्याय ओम